श्रीमद्भागवत् महापुराणं दसंस्कन्ध अथ षट्त्रिंशोऽध्यायः अरिष्टासुरका उद्धार और कंस का श्री अक्रूर्जीको व्रज मे भेदनां श्रीशोकुवाच अथ तर्ह्या गतो गोष्ठम् अरिष्टो वृषभासुरः महिं महाककुत्काय कम्पयन् कुरु वीक्षताम् रम्भमाणकरतरं पदा च विलिखन्महिम् उद्यम्यपुक्षं वप्राणी विषाणाग्रेण चोद्धरन् किञ्चिद्यञ्चे सकृन्मुञ्चन्मुद्रयन् सब्धलोचनः यस्य निरसादिते नाङ्गनिष्ठुरेण गवाम् गर्भा स्रवन्ति स्म भयेन निर्विशन्ति घना यस्य ककुद्यचलशङ्कया तं तक्ष्णसिंहमुद्वीक्ष्य गोप्यो गोपासि तत्रसु पशुवो दुद्रुवूर्भीता राजन्सन्त्यज्जलं गोकुलं कृष्णकृष्णेति ते सर्वे गोविन्दं शरणं यजुः भगवानपि तद्वीक्ष्य गोकुलं भय मा भैष्टेति गिरास्वास्य विशासुरमुपाह्वयन् गोपालैः पशुभिर्मन्दश्वासितैः किमसत्तमं बलदर्पहाहं दृष्टानां तद्विधानां दुरात्मनां इत्यास्फूर्त्या च्युतोरिष्ठं तलशब्देन कोपयन् सक्षुरंसे भुजा भोगं हरिः सोऽप्येवं कोऽपि तोरिष्टखुरेणावनिमुल्लिखन् उद्यत्पुच्छ भ्रमन् मेघ क्रुद्धकृष्णमुपाद्रवग्रण्यस्तविषाणाग्रश्रब्धा शिग्लोचनोच्युतं कटाक्षिप्याद्रवत्तृम् इन्द्रमुक्तो च निर्यथाम् गृहीत्वा सिङ्गयोस्तं वा अष्टादशपदानि स पत्यपोवाह भगवान् गजप्रतिगजं यथा सोपविद्ो भगवता पुनरुत्थाय सत्वरः आपतस्मिन् सर्वाङ्गोनिष्वसङ्क्रोधमुर्च्छितः तमापतन्तं श निगृह्य शृङ्गयोः पदासमाक्रम्य निपात्य भूतले निपीड्यामाश यथार्थमम्बरं कृत्वा विशाळेन जघानसोपतत् असिग्भवन्मुद्रसकृसृजन् विपंश्च पादान्नमनो वंसितेक्षण जगामकृच्छं निरृतैरथक्षयं पुस्तैकिरन्तो हरिमिरे सुराः एवं कुकुद्मिनं हत्वा स्तूयमान सुजातिभिर्दिवेशगोष्ठं शबलो गोपीनाम् नैनोत्सवः अरिष्टे निहिते देते कृष्णेनाद्भुतकर्मणा कंसायाथा कंसायाथाः भगवान्नारदो देवदर्शनः यशोदायासुतां कन्यां देवक्या कृष्णमेवच च रामं च रोहिणीपुत्रं वसुदेवेन बिभ्रतां न्यस्तौ स्वमित्रे नन्देवै याभ्यां ते पुरुषा हताः निशम्यतद्भोजपती कोपात्रचलितेन्द्रियः निशा तमसिमादत्त जिखांसया निवारितो नारदेन तस्य तो मृत्युमात्मनः ज्ञात्वालोहमयैपासैव बन्धसह मा भार्यया प्रतियाते तु देवर्षौ कंस आभाषकेशिनं प्रेषयामासहन्येतां भवता रामकेशवौ ततो चाडूर शलतो मुष्टिकचाडुरशलतोशलकादिकान् अमात्यां हस्तिपांश्चैव समाहूयाः भोजराट् भो भो निसम्तामेतद्वीरचाडूरमुष्टिकौ नन्दव्रजे किला सा ते सुता वानकृदुन्दुभेः रामकृष्णौ ततो मह्यं मृत्यु किल निदर्शितः भवद्भ्या मल्ललीलया मञ्चा क्रियन्ताम् विविधा मल्लरङ्गपरिश्रिताः तौ राजानपदा सर्वे पश्यन्तु स्वैरसंयुगम् महामात्र त्वया भद्ररङ्गद्वायोपनीयताम् विपकुवल्यापीडो जहितेन ममाहितौ आरभ्यताम् धनुर्यागश्चतुर्दश्याम् यथाविधि विस्तसन्तोपसुन्मेध्यान् भूतराजाय मीढुषे इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यद् पुङ्गवं गृहीत्वा पाणिना भो भो दानपते मह्यं क्रियतां मैत्रमादितः नान्यस्त्वत्तो हिततमो विद्यते भोजविष्णुषु अत यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभो गच्छ नन्दव्रजं तत्र सुतावानक आसाते ताविहानेन रथेनानयमाचिरम् निशिष्ट किल मे मृत्युर्देवै वैकुण्ठसंश्रयै तावानयसमं गोपैर्नन्दादेशाभ्युपायनै घातयस्य इहा नीतौ कालकल्पेन हस्तिना यदि मुक्तो ततो मल्लै मल्लयेर्घातये वैद्युतोपमये तयोर्निहतयो सप्तान् वासुदेव पुरोगमान् तद्बन्धुन्निहनिष्यामि विष्णुभोजदसाधकान् उग्रसेनं च पितरम् समिरं राजकामुकम् तद्ध्रातरम् देवकम् च ये चान्ये विद्विसोमम् ततश्चैषा महे मित्र भवित्री नष्टकण्टका जरासन्धो मम गुरुर्द्विदो दयितसुखां सम्बरो नरको बाणो मय्येव कृतसोहृदास्तैरहं सुरपक्षीयान् हत्वा भोक्षे महीं नृपान् एतद् ज्ञात्वा ने रामकृष्णा विहार्भकौ धनुर्मखनिरीक्षार्थं द्रष्टुं यद् पुरश्रियम् अक्रूरुवाच राजन्मनीषितं संयुक्तौ स्वां वज्यमार्जनम् सिद्धसिद्धयो समो कुर्याद्दैवं हि फलसाधनम् मनोरथान् करोत्युच्चैर्जनो दैव हतानपि युज्यते हर्षशोकाभ्यां तथाभ्याज्ञां करोमि ते श्रीशोकुवाच देवमादिस्य चाक्रूरम् मन्त्रिण्यस्य त्रविवेश गृहं कंस तथा क्रूरक्षमालयं श्री श्रीमद्भागुते महापुराणे पारमहंस्यां चैतायां दसंस्कन्धे पर्वार्धे क्रूरसम्प्रेषणं नाम षट्शिंशोऽध्यायः